pa कवितुमर्हति पेश्वमेत त्वह्नेश्वरजनितरा अयथा प्रमाणं तल्लोकवेदविदितेश्वर पर्जनेन कोयं भ्रम कतिचित् विश्वं निरीश्वरमिदं जगदाः साङ्ख्यः योगश्च स ईश्वरपुभौ अनुवादिनो अन्येनत्वेव सम्भवति मासनादिभिः अनीश्वर शब्दवाचैः ऐश्वर्यम् अग्र्यम् अनुपाधि निबन्धन ते यद्धोतनाथ नमसामपि पात्रमेकम् तत्प्रायश्रुतिशुक् दुर्लभमे वक्वाक्यं मुक्त्वा नमो भवति यत्र भवत् देवत्वदेकविषयाणि न मांसि पुंसा यस्मै नमः श्रुतिबलात् म्पत पि नमस्ेन उच्यमानम् त्वामेवतन्तमनोसन्दधत प्रदेशम् शं सन्ति मदमदयोऽपि किमापदम् मद्यदिने सवितारमपन् हुविरन् कर्मैव शूलधरशूलकवन्त्वदीयम् मन्त्रा भवन्तमखिला प्रतिपादयन्ति त्वाम नियुनदानि नियोजय त्वम् अङ्गान्तरेषु विबुधान्तर संस्तुतेषु यशिषो माशिरस परिषि ङ्कर शङ्खिनीया मोद्राचया कमलिनी भरतोपदिष्टा ताभिर्भवत्यभिनया विबुधान्तराणा मौले स्पृशा करपुटाञ्जलि मोद्रया देवताभ्यः त्वामतरेण नमसामवसानभूमिं तास्तद्रहीतुमनलनहि कस्ति दृष्टि चोरोपनीतमिव धारयितुं किरीटम् तस्मै नमो भवति यत्र निषीदसिति सर्वं नमस्य मनय तु दिशा महेश अप्योषधि प्रति नमो वयमामनमो देही वदेहमद् ेन सर्वम् सर्वं त्वया जगदधिष्ठितमेव मत्वा श्वानश्रुतो नमसिता पतयश्वतेषा लोके पुनस्तव महेश्वर भक्तियोगा रोपितापि वयं बहुमानपात्रम् द्वे धानमो विमृशत प्रतिभाति लोके वेदेशो वा विषमलोचन्यरूपम् तन्नमस्त्वश्वरता प्रयोक्तं त्वत्सन्निकर्षविहितं यदनीश्वरेषु त्वत्सन्निकर्ष कृत प्रायोबसि असि यवीयसि दृश्यमानः श्रेष्ठप्रयुक्त इति कल्पयितुं न शक्यम् अश्रेयसामपि न ए, ए, ए ष्ठ प्रयुक्तमपि नाम त्वदीयं श्रेष्ठोऽसि यः पतिरग्नियाना श्रेष्ठ श्रुतोऽसि भगवन् अविशेषतस्त्वं मात्रेषु कृ पठितेषु च सामगना देवान्तरैः सह कृत्य खलु रुद्रपदं प्रयुङ्क्ते तणं भवति यत्र तयो सहूतिः आह्वानमत्र भवत पृथगेव दृष्टं यत्प्रातरग्निमिति सूक्तवेदः पठति अज्ञादिभिस्तव महेश्वर पूतिशङ्का मा भोदिति प्रकृतम् अपि अनुशङ्कयोग्यम् मात्रक्रिया पदमपास्य तिरितिम् न्यासीकृतं वसुबलात् आमरेरवातुं वगतो रुदितवानिति रुद्रमग्निं रुद्रास्तवद्बुद्धवतया मारुतो गणान् द्रावणेन च भवन्तमवैमित्रोद्रम् येऽपि रुद्रपदम् आरुणकेतुक उक्तं तच्छब्दमेश्वर तदीयम् अपि स्मरन्ति यत् सामगेव्यः सन्ताप्यरोदयित रिप्रसभों जनाना आहोर्ज्वरेऽपि विषमेक्षण रोद्रशब्दम् रोद्र वा शब्दान्तरं भवति वायस शब्दकल्पम् सन्त्येव तद्धितपदप्रतिरूपकाणि भोरेणि भागवत सात्वत सन्निभानि स्यात्तादृगेव भगवात् कितिशब्दरूपम् षा ोपैति न अयम् ऐश्वर्यमग्र्यमनुपाधिमती च लक्ष्मी ज्ञानां च वीर्ययशसी च वीरागता च के ते गुणा षडपिते भगसंज्ञयोक्ता सन्तित्यनेन भगवन् भगवानसे ऐश्वर्यमेश्वरपदश्रुतिरुग्रशब्दो वीर्यं यशेवपदं च तवाभिधते सर्वज्ञकामरिपुशब्द समर्थितौ चज्ञरागविरगौ भवतः पुरारे त्वमसि दाशतये गिरोकः लब्धुं जनिमचारु विचित्ररूपं अभ्यर्चितं तव मरोद्भिरुदाहरन्ति सत्यं क्षमाधृतिरधिष्ठितिरात्मबोधक्रेष्ठिर्विरागतपसि मतिरीश्वरत्वं न त्ववियति न कदाचिदपि ति धर्मः भवति ते गुणसम्मतेषु नैवेश्वरान्न यशसा महतो न वीरान्न श्रीमत् तिपतेनपि सार्वभोमा अन्यादृशान् अपि महेश्वरवितरागा प्रज्ञावतो भगवतः प्रवदन्ति वृद्धाः अथर्वनामदनशासननिब्रुवाणाः नामानि नाम, नाम भगवान् किति ते निराहुः अत्याश्रमोपनिषदाः भगेश्वरं त्वा भगवन्तपुषन्ति पूज्यम् हिवता विहिता महेशमन्त्रेण वामनसकायनिबधना ते सनोक्ता स नोक्ता समर्पयति रूपविशेषमस्मै अन्तर्गतैरपि तदोपयिका विधेयैः भाव्यं वचोभिरितिवाक्यविदां प्रवाद नारायणस्य यदुपासतया थ जेत्पूद्वतिशिष्टभवदावय मन्यगामी शक्यं महेश्वर न कर्तुपूपासन दे नासा पसनमोपास्य कथे तस्मादुपासकतया परिशेषसिद्धिः अन्तर्व्यवस्थितगिरा परमात्मनस्ते शब्दादृतेऽपि विहितं तदुपासकत्वम् यस्य स्थितोऽसि हृदये परमस्त्वमात्मा योक्तं न तस्य परमात्मतया अभिदानं। स्वेन स्वयं मनसि अग्निक्षिखान्तराळे तिष्ठन्नोपास्य एकास्य पदं न कस्य ारायणस्य हृदयं सुषिरं महाग्निः अग्नेशिखा परमात्मपदं यदुक्तं सर्वोऽप्युपासनविधेरय अर्थवादः श्रद्धा विशिष्टपुरुषा शरणाद्विधेये ते परमं च तत्त्वं ज्योतिर्परं च परमेश्वर पद्मनाभक त्वद्भावनैकरसिकस्त्वदनन्यभावात्मत्रि कर यथा गरुडभावनया गरोत्मा ता योगज योगच विभूतिविभावनाय नारायण शिवपदं प्रतिवाच मोचे योगनिशामय महेश्वर गोचरं मे दिव्यं ददामि तव चक्षुति प्रसन्नः मन्तरेण न कथञ्चित् उपासनियमन्यं ब्रवीति स शिवस्तुतिरन्तकारब्रह्मशब्दसमभिव्यवहारयोगसंहारकारिणि हरे शिव शब्दमावो विश्वाधिक त्वमसि विश्वमयं मुरारि यज्ञेश्वर त्वमसि यज्ञममुं गृणदे आद्या जगत् प्रकृतिरेश भवान् निवेतमाच कथनो भगवन् यो Thank uh you. -huh. पाणिः विश्वस्य विश्वतया विश्वतयाभिधानम् नालं गुणाय गुणगृह्यत् निकर्षयेतुः विश्वं महेश्वर भवानधितिष्ठतेति विश्वात्मता उपचरन्ति यदा गत्पण्डिताविदितवेदस्य शिलाः जानन्ति मन्दमदयस्तु सत्यं तुव्यं नमो विदधेश्वर तन्दमर्थम् आतिष्ठते सकलकर्मसो विश्वक्ती सर्वानुवादमिदं उक्तसमर्थनाय कात्याय नोमो निरुदागरते स्म गृहे स्थानं यदान्तरमोपास्ति उपासको वा या सा परा परतया विविधा विभूतिः यद्वा पुनर्विशमनेत्र उपासितव्यं नारायणोपनिषदादत्र सर्वम् यज्ञात्मना स्वयमसावृषिणोपदिष्टा नारायणेन भवत प्रतिपादयित्री सूक्तं यथा पुरुष दैवतमन्तकारे क्षामाहोपनिषदाः खेरण्यगर्भं जातं त्वदेव भगवन् प्रथमं सुराणा नारायणा अभिजनं येन अथापि मन्दाः क्षंसन्ति तत्र भवत कतिचिप्रसूतिम् मध्ये ललाटम् अरविन्दभुवक्षणेन दृष्टो भवानिति क एष निकर्षवादः योगादिरूढमनस मनसशिव मादृशोऽपि स्थानेषु पञ्चसुनकस्य तवोपलम्भग ब्रह्माणि पञ्चतनवशिव मन्त्ररूपा जीवा तव पशुपते शैवसंहितानां रुद्रेषु पुण्यमिव पञ्चकम् अक्षराणा हत्ववादग विद्येश्वरस्त्वमसि भूतपतिरस्त्वमेकग्रष्टो भवानधिपति सृजति प्रपञ्चम् यद्ब्राह्मणान् प्रति तव श्रुतम् आधिपत्यम् सदाशिव जन्मलाभग विद्येश्वर तत्पुनरुक्ततया न वाच्यं वेदाधिपत्यम् अयमेव महेश वेदः विद्या भवन्ति शतश प्रविभज्यमानाः ीतेव पृथक् कृतानि पे समनिधनकोशे बिम्बे निविष्टमधितिष्ठते पो रुषो यः केषा तमे शयेति साभिनया भवतं भूताधिपत्यवचनेन शशं स हिरण्यपतेरेष हिरण्यबहुः उक्त अम्बेकापतेर्वोमापतेर् एष उक्तः आहुर्भवन्तम् अदितैव तं पुष्णरश्मेः आतस्तदर्चनविधो भगवन्नभिज्ञाः यो मण्डलं तपति यश्च तदन्तरात्मा याचानयोर्भवति भूतपते विभूतिः जाना एतत् अपि यत्फलम् अश्नोते च सर्वं यथावदिह तत् कथितं क्रमेण भूत माम भूत् अखिलमन्यदेमप्रदेशम् अध्यापितास्तमन्त्रविदो भवन्ति वाच्यकेमस्य सविता सवितुर्वरेण्यः किं वा भवानि देवि तर्कपदप्न तेषा भास्वन्तं एष ऋषये पुरुतेन मन्त्रः शक्नोति वक्तुम् अधिदैवतं ईश्वरं त्वा यस्मादयं त्वयि निरोहति भगवशब्दः प्रज्ञा प्रचोदकतय तदधीयसे त्वम् ह्यसुनि वा गग्नि पदान्ते योक्तं वदत्युभयथा स्वरमा युदातम् यत्यस्तकारकमैमि पदं भगातम् भावम् मैत्रायण श्रुतिरसौ तदिते प्रकृत्य भर्गम् भवन्तमभिधाय विचिन्तनीयम् रुद्रस्य भर्गपदगोचर पुरारे। पदं पुरारे शान्तं पदं तदपि नैव ददाति वक्तुं यद्ब्राह्मणन्तलवकारिण आमनदि क्रमनिरूपित, पूर्वपादम् र्गमयं ब्रवीति भर्ग प्रचोदयति यो धीयमस्मदीया तं धीमहीति घटनाविनिमायलिङ्गम् वाचस्य भर्ग भवत अभिधानं भर्वाक्यमेत्यपि च साम्भव च प्रतिपाद्यमर्थम् तत् अक्षरं तत् तत भार्गोऽपि सवित्रे सवितृशब्दसमन्वयेन सावित्रतामपे विगाहत एवमात्रः तत्तत्पदान्वयवशेन महेश मन्त्रान् तद्देवतानपि मन्त्रवेदः पठन्ति अप्यर्क दैवतवती वृच इति शङ्कर वैश्वदेवी पित्र्याञ्चमर्त इति पुष्यपदेन पौष्णी हे तादृशानि कति नाम निदर्शनानि शागति शागतिश्रुतिगिराम् इति निर्णयेन तत्तद्ग्रहार्चनविधो मुनयस्मरन्ति मन्त्रेण शङ्करशने शमुपक्रमेण बुद्ध्यस्वशब्दसहितेन बुधस्य पूजा आम्नाय मृगजुषसामविधं विचिन्त्य परमेष्ठिनापि मन्त्रस्त्रिपाद यमदृष्टविधान्तरेण दृष्टश्चराचरगुरो मनो न यथोक्तम् सकलं हविस्ते प्राज्ञो बलिं हरतु भागदुद प्रजाव्यः पार्थेन शङ्कर निवेदितम् अम्बुजाक्षे नैशं हवेस्फुटम् अदृश्यतपादयोस्ते सोमं त्वदर्थमनुषुश्रुमसूयमानम् आलम्भनं पशुपते नियतं पशुना न गव्यं च ते गवित्सदेव कसदाम् विवादः उत्पत्तितशिवगृहीतसमन्वयास्ते सोमः पशुर्गविच सन्ति हविंषितानि देव पशो हविषि भागम् अनोज्ञयाते यं कर्मैकमेव न परं पशुबन्धनं ते कर्तव्यमाहु कर्मसु भवत्र ो गृणति सङ्कल्पतप्रभृति यज्ञतनुं विभज देवान् प्रजापति मुखान् प्रति दर्शयन्तः सोमाहुतिं पूतवर्चिषि पूयमाना Thank you.